शशिभूतानन्तरम् स्म नातु मणिसङ्गायके आयोज्यते अत्र अग्ना आशांसे पुनः आप्ति क्रियते अशब्दानुशासनम् आई ओण् ए ॐ ऐ औ हाया न्याम मानम् धाम धाढाध जावा गुणभृद्धि न धातु लोपहारधातुके किम् लिषा वीभीहेता हलोऽनन्तराः संयोगः मुपनासिका वचनोऽनुनासिका तुल्यास्य प्रयत्नम् सवरणम् नाझौ इवचनम् प्रगृहम् अलशोमाक्षे निपाद एका जनाम् ओ सम्बुद्धौ साकल्यस्येतामनाशे मुञ् ईदूतौ च सप्तम् यथे दालाभुदा आर्यन्तवदेकस्मिन् तरप्तमपौ बहु भुदा। गणवतुलति सङ्ख्या संख्या षट् दशी च ूनिष्ठ सर्वादीनि सर्वनामानि विभाषादिप्रमासे बहुव्रीहौ नव गौव्रीहौ तृतीयसमासे गन्धे च कति प्रथमचलम्तया पादकतिपयनेवाच पराधराणि पूर्वपरावरदक्षिणवत्रापराधराणि सम्भाषयाख्यायाम् अन्तरम् वैर्योपसम्भ्यानयो स्वराजिवातमव्ययम् पतितश्च सर्वव्यक्तिः गृह्मे जन्ता वातोऽसन् ैश्च श्रीशर्मणम् सुरणपुंसश्चन्तौ कलितौ निर चरोपरः एभ्य्वादेशे षष्ठिखाने योगा स्माने त्वतमः पुरम् न परा अलोन्त्यस्य मिथ्या आदेपरस्य अनेकातुचित् सर्वस्य अनितादेशो नरविधौ अजः परस्मिन् ध्रुवविधौ न पलान्तचनबले अलोप स्वरसवरणानुसार दीर्घजश्चिषु निर्वचने श्री अदर्शनं लोपः प्रत्ययस्य विष्णुभातयस्य लु रूपा प्रत्ययस्य लोके प्रत्यलक्षणं प्रत्ययस्य लक्षुरूप प्रत्ययस्य विष्णुरूपा स्वस्य लोके प्रत्यलक्षणम् लक्षुरूपा प्रत्ययलोके प्रत्ययलक्षणम् प्रत्ययस्य लक्षरूपः प्रत्ययलोके प्रत्ययलक्षणम् प्रत्ययस्य लक्षुरूपः प्रत्ययलोके प्रत्ययलक्षणम् प्रत्ययलोके प्रत्ययलोके प्रत्ययलोके प्रत्ययलोके स्वत्यलक्षण प्रत्ययलक्षणं स्वणम् प्रत्यलोके प्रत्यलक्षणम् प्रत्ययलोपे प्रत्यलक्षणं प्रत्ययस्य लक्षिरूपः प्रत्यलोके प्रत्यलक्षणं प्रत्ययस्य लक्षुरूपः प्रत्ययलोपे प्रत्ययलक्षणम् प्रत्ययलोके प्रत्ययलक्षणम् ननुमताङ्गस्य नानुमताङ्गस्य नानुमताङ्गस्य ननुमताङ्गस्य ननुमताङ्गस्य नानुमताङ्गस्य प्रत्ययलोके प्रत्ययलक्षणम् ननुमताङ्गस्य प्रत्यय ्यादि प्रत्यलोपे प्रत्यलक्षणम् ननुमताङ्गस्य अशोन्त्यादिति प्रत्ये लोके प्रत्यलक्षणम् नानुमताङ्गस्य अशोन्त्यादि अचौन्त्याचन्त्यादि अलौ त्या पूर्वोक्था अलो अचो अलो त्या पूर्वोक्था उपधापदा अनो पूर्व उप अलोत् पूर्व उधा अचोन्त्यादिति अलोत्यात् पूर्व उपधा अशोन्त्यादिति अलोत्यात् पूर्व उपधा नानुमताङ्गस्य अचोन्त्यादिति अलो त्यात् पूर्व उधा नानुमताङ्गस्य अचोन्त्यादिति अलोञ्च्यात् पूर्व ना उपधा नालुताङ्गस्य अचोन्त्यादिति अलो्यात् पूर्व उपधा प्रत्यय लोपे प्रत्ययलक्षणम् अचोन्त्यादिति अरुञ्च्यात् पूर्व उपधा प्रत्ययलोपे अचोन्त्यादिति अलोन्त्यात् पूर्व उपधा न प्रत्यय लोपे प्रत्ययलक्षणम् नानुमताङ्गस्य अचोन्त्यादिति अलोन्त्यात् पूर्व उपधा अचोन्त्यादिति अलोन्त्यात् पूर्व उपधा अचोन्त्या अलोत्यात् पूर्वपधा अचोत् पूर पूर्वपदा तस्मिन् निर्दिष्ट अलो पूर्वपधा तस्मिन् नीति निर्दिष्ट पूर्वस्य अचोन्त्यात् पूर्वपधा तस्मिन् नीति निर्दिष्ट पूर्वस्य निर्दिष्टे पूर्वस्य तस्मिन् निधि निर्दिष्टे पूर्वस्य कस्मिन् तस्मिन् निर्दिष्टे तस्मिन तस्मिन तस्मिन तस्मिन निर्दिष्टे निर्दिष्टे निर्दिष्टे निर्दिष्टे निर्दिष्टे निर्दिष्टे निर्दिष्टे निर्दिष्टे पूर्वस्या पूर्वस्या तस्मिन् निर्दिष्टे पूर्वस्यां सा पूर्व उदास्मिन् निर्दिष्ट पूर्वस्य पूर्व तस्मिन् निर्दिष्टे पूर्वस्यां सों सा पूर्व उदा तस्मिन् <Pourvashya, Pourvashya> <Pourvashya> <Pourvashya> <Pourvashya> <Pourvashya> तस्मिन् निर्दिष्ट पूर्वस्य हलो स्यात् पूर्वोक्ता तस्मिन् निर्दिष्ट पूर्वस्य नानुमदाङ्गस्य असोन् त्यादिति अलोन् त्यात् पूर्व उदा तस्मिन् ते निर्दिष्ट पूर्वस्य नानुमदाङ्गस्य अलोन्त्यात् पूर्व उपधात् तस्मिन्निति निर्दिष्टे पूर्वस्य ननुमदान्धस्य अशोन्त्या इति अलोन्त्यात् पूर्व उपा तस्मिन् निर्दिष्टे पूर्वस्य अलोन्त्यात् पूर्वौधा तस्मिन्निति निर्दिष्ट पूर्वस्य नानुमताङ्गस्य अजोन्त्यादिति अलोन्त्यात् पूर्वपदा तस्मिन्निति निर्दिष्टे पूर्वस्य प्रत्यलोके तस्य लभ्य नानुमताङ्गस्य अशोन्त्यादिति लोन्त्यात् पूर्वबधा निर्दिष्टे पूर्वस्य प्रत्ययलोपे प्रत्ययलक्षणम् अचोन्त्यालोन्त्यात् पूर्वोपदा प्रत्ययलोपे प्रत्ययलक्षणम् ङ्गस्य पूर्व तस्मिन पूर उपधा तस्मिन् पूर्वस्य प्रत्यलोके प्रत्यलोषणम् ननुमताङ्गस्य अचोन्त्यादिति अलोन्त्यात् पूर्व उपधा तस्मिन् निधि निर्दिष्टे पूर्वस्य